उदेहे हाजन्या स्वाहा आन्तरिजम् राष्ट्रम् प्रवेशसोमृतावत् योरोहे कोदिश्यामिदम् गजा न सत्त्वा राष्ट्रायफलम् विभक्तु उपतार्या र्विशारो हत्वद्यो न यो याः सोमन्नथा नोपवोषा दीर्घाश्चतुष्मदोऽग्निपथा वेशयेह योऽयमुग्रामारुतः पृष्ठ्यमातरा इन्द्रेण युजाप्रवृणेतशत्रोः आमोरोहेतशृणवत्सुदानस्त्रिशक्ता रोह रुरोहरोहेतमारोहगद्भोजनेनाञ्जनुषामुपस्थन् रो ताभिः संरब्धमन्दाविन्दम् जलरूपेर् पातुम् प्रपश्यन्निह राष्ट्रमापराष्ट्रमिह लोहे गोहार्षेद्याश्चन्मृथो भायन्ते अभूत् तस्मै ुहाथामिह चक्वारीभिः रोहेतोद्यावाः पृथिवे च जानतन्तुम् परमेष्ठेत तत्र शिशुरे च एकापादोदुम् हस्ज्यावाः पृथिवे बलेन रोहे त्वाद्यावाः पृथिवे आदुम् हस्तेन स्वस्थभितन्ते नगाः तेनाम् गलक्षम् विमीतारजाहंसितेन देवा अमृतमन्ना विन्दन् विरोहितोऽमृषग्श्वरोः पुंसमा कुरुभाणाहरोः अरुहश्च दिवं रोढ्वाम हताम हिन्नासन्दे राष्टमानक्त्वपया सा कृतेन स्तेरुह प्ररुहयास्त आरुहायाभेदा वृणासि दिवमन्तरिक्षम् तासाम् ब्रह्मणा पयसा वावृधानो विशिधाश्चेतस्य शास्ते विषस्तपासः सम्पथोपर्वत्सङ्गा यत्रे मनुता इहागोः तास्त्वादेशम् सोऽभ्येतुरोहितः ओर्ध्वोरोहितोऽधिनाके अस्थाद्विश्वा रूपाणि जनयन्युमाकाविः तिग्मेनाग्नेज्योतिषाविभाति तृतीये जग्न च क्षिप्रियाणि सहस्राशङ्गो वृषभो जातवेदागताहोदः सो मा पृष्ठः सुवीराः मासेन्नासितो नेत्वाचः निगोपोषम् च मे वीरपोषम् चाधे रोहिता यज्ञस्य च नितामुखम् च रोहिताय वाचा श्रोत्रेण मनसाजहोमि रोहितम् देवायम् लिगुमनस्य मा नासमारोहयिसामित्ये रोहयतु णे तस्मात् ते चांशिपमे मान्यागोः वोचेयम् तेनाभिम्भुव नस्याधे वज्मने आरोह बृहत्योतपङ्क्तिराक्षपत्पर्च सा जातवेदः आत्त्वारोहोऽष्ट्याक्षरो वषट्कार पृथिव्यादिवम् अस्तेयमन्तरिक्षम् अयम् रत्नस्य विश्वविश्वर्लोकान्या नशे पारस्पदे पृथिवेन स्योनाश्योनायो निःसल्पाः नः सुषेवा इहेव प्राणः पाजस्पदरतः पञ्चयेनो वैश्वब्रह्मणाः पर्येसम् बभूवो इहेव प्राणः सख्येनो अस्त्वतम् वा परमेष्ठिन्द्वर्यो हिकायो सावच्च सादधातु वाचस्पदे सौमनसम्मनश्च इहेव प्राणः सख्येनो अस्तुतन्त्वारमेश्च्यहमायुषावर्चा सा, सा दधामि वरित्वाधात्सपिता देवो हर्ज्ञरवर्चा सा मित्रावरुणा बुभित्वा सर्वादेरवर्ता मन्ने हेरम्भाश्रमकरः सोऽतावत् यन्त्वापृशातेरथे प्रश्चर्वः तिरोहित सुभायाशिरणः अहं रतारोहेणेरोहेदस्य सोरिः सुवर्णाः बृहते सुवर्चाः तया वाचान्विश्वरोपाञ्जये मतया विश्वा पृतनाभिष्याम इदम् गतो रोहेणेरोहे तस्यासो पन्था पृषा ते येन जाते ङ्गम् धर्वाः कश्यपा उन्नयन्ति ताम् रक्षन्ति कवयो प्रमादम् सूर्यस्याश्वाहरायक्यमन्तः सदा वहन्त्यमृताः सुखम् रथम् घृतपापारोहे गोग्भ्राजमानो दिवम् देवक्नुज सेमाविवेश यो भस्तिग्पर्यग्निम् परिसूर्यम् बभूव गोविस्तब्धाते पृशिवेन्निवम् च तस्मास्देवाभिसृष्ठे सृजन्ते रोहेतो दिवमानो हन्महतः पर्यार्णवात् सर्वारुहरोहेतो रोहाः इमेश्ववयस्वतेन्धृताजेन् देवानाम् स्फगेशा इन्द्रः सोमम् विवत् क्षेमास्तग्निः विमृधा मृदस्व समिद्धो अग्नश्च मिधानाभृतवृद्धाभृताहूतः अभेषा विश्वाशाग्निः स्वपद्मान्हन्तु मम हन्ते धान् क्रव्याधाग्निना वयम् सपत्नान् प्रदाहामसि अवाचेना न वाजहेन्द्रवज्रेण बाहुमान् रथा सपत्नान्नामकानग्ने स्ते चाभिरादेषु रग्ने सपत्नामजालान्पादयास्मद्व्याधया स जातमुत्पिपानम् बृहस्पते इन्दाग्ने मित्रावरुणावधारे पद्यन्तामप्रातिमन्यूयमानाः वृद्याम् स्पन्द सूर्यसपद्मानवामे जे अवैनाकस्मानागृतेयम् तथा मन्दमाह वत्सो विराज वृषभो मारोरोहशुक्रपृष्ठान्तरिक्षम् हृतेनाक्रमभ्यर्चन्ति वत्सम् ब्रह्मण सन्द्रम् ब्रह्माणावर्धयन्ति विभृम् चरोहृषिवेञ्चरोहराष्ट्रम् चरोहत्रिवेलम् चरोहोहामृतम् चरोहरो हे तेन तन्दाम् संस्मृशस्व एवाराष्ट्रभृताभिचार्यम् द्विषौर्यम् ेष्ठ रोहेदः संविधानो राष्ट्रम् दाधातुकुमलस्यमानः पुत्रा यज्ञाः ब्रह्म पोता वहन्त्यध्वागतो हरा यस्वा वहन्ते शिरः समुद्रमते रोदसर्नामम् रोहिते ज्यावाः पृथिवे अधिष्ठदेव सन्धनादिते सहस्तमानसप्त च गोचरयन्तेनाभिम्बुवा न स्याधे मज्मने शाया शप्रश्वालश्च यथाः पाशोनामुदकर्षणेन यशाप्रशिव्या अदित्या उपस्थेऽहम्भोगो या सं विदेव अमुत्रा सन्निहवेत्थेतः पश्यसे इदः पश्यन्तिरोचनम् दिभिसौर्यम् विपश्चितम् देवो देवान्नत्ययस्यन्तश्च ना रस्य नामे समानमग्निमिन्धेदम् वेद कवयः परे अवः परेण सागत्रे चेकाम् स्विदर्थम् पराघात्व स्वित्सोध न हि योधे अस्मिन् एकपदे द्विपदे सा चतुष्पद्यष्टापदे नवपदे बभोपुषेः सहस्राक्षराभुवानस्य चाह पुत्रायज्ञा ब्रह्मा पोधा वहन्त्यद्धा गतो हरा यस्वा वहन्ते वेददत्ते अवर्त्य यत् आक्रमाणम् दिवे यत्थे सतस्थम् परमे व्योमन् सूर्यज्ञाम् सूर्यपृथिवीम् सूर्या, सूर्या बोधे पश्यते सूर्यो भोधस्यैकम् पूर्वेणा सन्वरितयो वेजभूमेन कल्पत आधत्त हिमम् धंसम् च रोहेतः हिमम् धंसम् चाधाययोपानम् कृत्वा पर्वतान् वर्षाद्यावग्नेजाते रोहेतस्य स्वर्विदाः स्वर्विदो रोहेदस्य ब्रह्मणाग्निः समिध्यते तस्माद्ध्रंसस्तस्माद्धिमस्तस्माद्धज्ञो जायत ब्रह्मणाग्नेवावृधानौ ब्रह्म वृद्धौ ब्रह्माहुतौ ब्रह्मा ब्रह्मा ब्रह्मेऽद्धावग्ने जातैरोहेदस्य स्वर्विदाः सत्ये अन्यः समाहेतो स्वान्यः समेध्यते ब्रह्मेऽद्धावग्ने जातेरोहेतस्य स्पर्विदाः यम् वातः परिशुम्भादियम् वेम् त्वाश्वः ब्रह्मेर्धामग्ने जातेरोहेतस्य स्पर्विदाः शेतिम् भूमिम् कल्पयित्वा दिवम् कृत्वा दक्षिणाम् वर्षमाज्यम् घन्साज्ञर्वेदिर्भूमेरकल्पत तत्रैतान्पर्वतानग्निर्घेर्भिरोर्ध्वा अकल्पयतेर्भिरोर्ध्वान् कल्पयत्तारोहेतोभौमे बब्रवेद त्वयेदम् सर्वम् जायता यद्भूत यच्च भाव्यम् स्वयज्ञप्रथमो भूतो भव्याजायत तस्माद्धजज्ञ इदम् सर्वैयत्किञ्चेदम् विरोचते रोहिते नर्षेनाभृदम् यश्च गाम् परा स्फुरदिप्रत्यम् सूर्यम् च मेहदे तस्य वृश्चामि ते मूलम् नच्छायाम् करमोपारम् ह्योमाभिच्छायमत्येशि माञ्चाग्निम् चान्तरा तस्य वृष्ठामि ते मूलम् नच्छायाम् कारवोपारम् याद्यदेव सूर्यत्वाञ्छमाञ्छान्तम् तरा याति दुष्वम् तस्मिन् छमालम् दुरिदामे च मृज्महे मा प्रकामपथो वयम् मा यज्ञादिन्द्रस्वामिनाः महान्तः यो यज्ञस्य प्रसाध नस्तम् दुर्देवे स्वाततः पमाहोतमशीमहि उदस्य केतवो दिविशुक्राभ्राजम् तैरते आदित्यस्य निजक्ष सोमहेरतस्य मेढुषाः दिशाम् प्रज्ञानम् स्वरयन्तमर्चिषा सुपक्षमाशुम् पदयन्तमर्णवे प्रवामसोर्यम्भुवानस्य गोपाय रश्मिभर्दिशापादि सर्वाः यत्प्राङ्मत्याम् स्वदयायासिषे भन्नाना रूपे अहमेकर्षे मायया कदा नित्यमहितर्ते महेश्व भोजते को विश्वम् परिभो माजायास विपश्चितम् तरणिम् भ्राजमानम् वहन्त्ययम् हलितः सप्तपक्वेः श्रुताद्यमत्र दिवमुन्निनायतन्ता पश्यन्ति पर्यान्तमातिम् मात्रादभन् पर्यान्तमातिम् स्वस्ति दुर्गा प्रदेयाहि शेभम् दिवम् तसोऽग्यपृथिवीम् च स्वस्तितेः सौर्यचलसे रसाय नो भावन्तोः पर्यासे सद्यः यन्ते वहम् ज्यहरितो वहिष्ठा शतमश्वाजिदेवा सप्तपक्वेः सुखम् सौर्यम् रथामम् शमन्तम् शवनम् सुवह्निमधे तिष्ठवादिनम् शन्ते वहम् ज्यहरितो वहिष्ठा शतमश्वाजिदेवा सप्तपक्वेः सप्तसोऽ हरितो यात वैलसे हिरन्यत्वचसो बृहदेरायुक्ता अमोदिशुक्रोर च प्रस्थास्मिधो य देवस्तमो दिवामारोहत् पुत्केतुना बृहदा देवागन्नपा वृत्तमोऽभिर्ज्योतिरश्व दिव्यस्योपर्णस्वीरो पुत्रो भुवानादि विश्वा हृद्यन्नस्मिनासुचे विश्वारूपाणि पश्यसि उभासमुद्रौ क्रतो विभागसर्वाल्लोकान्नारिभो भ्राजमानः पूर्वापरम् च रतो मायैतोशोक्रेणम् तोपदे यातोर्नवम् विश्वान्यो भुवाना विचष्टे हैरन्येऽरन्यम् हरितो वहन्ति विवेक्त्वात्रेरधारयत्सोर्यामासाय कर्तवे स्व येषु सुकृदस्तपन्विश्वा भूता वचाकाशत् भावन्तौ समर्शति वत्सः सम् मातरामिव वन्वे एतदिन पुरा ब्रह्म देवा अमीवेदो यत्स मुद्रमनश्रियम् दप्स्येषा सति विदतो महान्भूर्वश्चापारश्च यः त्वम् समात्मोति ज्योतिषस्ततो ते नापेत्सति तेनामृतस्य भक्ष्यम् देवाहान्नावारुन्धते उदृत्यम् जातवेदसम् देवम् वा हन्तिकेतवाः ऋषे विश्वायसूर्यम् अपत्येतायवो यथा नक्षत्रायम् त्यक्तुभेः ोराय विश्वलक्षसे हविषण्णश्च केतवो विलश्मयोजना अनु प्रायन्तो अग्न्ययो यथा करणर्विश्वदर्शतोऽद्यो दुष्कृशिसौर्य विश्वरमाभासिरोचन प्रत्यङ्गदेवानाम् दिश प्रत्यङ्गुतेषु मानोषेः प्रत्यङ्गिश्वाम् सदृशे येना पावकचक्षसाभुरन्यन्तम् जना ननु त्वम्बरुणपश्यसे विद्यामे हृदस्पृत्सहसुमिमा नो हतुभिः पश्यञ्जन्मानि शूर्य सप्तत्वा हरितोरथे वहन्ति देवशूर्य सौजिष्ठे संविदक्षणम् अयुक्तसङ्खसन्ध्यवस्सोरोरथस्य नक्त्याः आधर याति स्वयुक्तिभिः नो हे ज्योतिवमारो हस्तपासा तपस्वी स योनिमैति समो जायते असुनश्च देवानामधेपतिर्बभूव यो विश्वदर्शनिरुदश्रो यो विश्वदर्श सम्बाहुभ्याम् धनयतिसम्पदत्वे द्यावापृथिवीजनयम् देव एकाः एकपात्रिपादो भूयोऽपि चक्रमे द्विपात्रिपादमभ्येति पश्चात् विपाग्ध्पादो भूयोऽपि चक्रमेत एकपदस्तन्वा आम् हरितो यदा स्थाब्दे रूपे गृणुते रोचमानः हेतुमानोद्यान् सह मानो ददान्ति दित्य प्लवतोऽपि भासि वण्महासूर्यपदादित्यमहासि महांसे महतो महिमात्मादित्यमहासि रोचस द्विरोचस अन्तरिक्ष पतङ्गपृथिव्याम् रोचसे रोचस अप् स्वान्तः भासमुद्रौरुद्ध्याव्या ेवो देवासिमहिष स्मर्जित् अर्वान् परस्थात्प्रियतो व्यद्धा सर्वे पश्चित्पतयन् पतङ्गः विचित्तश्च वसाधितिष्ठन्वकेतुना सहते विश्वमेतत् चित्तश्चेकित्वा न हिषस्तोपर्णारोचयन् रोदशी अन्तरिक्षम् परिशोर्यम्बाने प्रास्य विश्वाहारतो वीर्याणि दिक्मा विभ्राजन्तरङ्गा आं सिजानो रङ्गमासदोर्गानः यो युष्मान् भक्ष्येमा हिजो वा योधा विश्वास्तात् प्रतिशः कल्पयमानः चित्रम् देवानाम् के दुलने कञ्चोदिष्मान् प्रदेशः सूर्यबुध्यन् विवाकरोदिद्युम्ने स्तमान् क्षविश्वालारे दुरिदाने शुक्रः चित्रम् देवानामुदगादने कञ्चक्षुर्मित्रस्य वरोणस्याग्ने आप्राद्यावापृथिवे अन्धरिक्षम् सूर्य आत्मा जगातस्तस्थुषश्च वृच्चापतम् तमऋणम् चोपर्णम् मध्ये दिवस्तरणिम् राजामानम् पश्यामत्काशवितारय्य माहलस्रञ्जोगर्यतमिम् दवत्रेः दिवःपृष्ठे धावमानम् तु पर्णमदित्या पुत्रम् नासगामुपायामि स नः सोर्यप्रदेलदीर्घमायनुमालेषाम सुमलोके श्याम सहसान्यम् यादावस्य भक्षो हरेर्हंसस्य पततस्वर्गम् स देवान् सर्वानुरस्युपादत्य सम्भष्यम् याति रोहेत यज्ञानाम् मुखम् रोहेत स्वाराभारत रोहेतो लोका भवद्रोहितो ज्यातपद्दिवम् रोहेत रश्मिभिर्भूमिम् समुद्रमनुसञ्चारत सर्वादिशः समाचरद्रोहितोधेपतिर्दिवः दिवम् समुद्रमाद्भोगिम् सर्वम् भूतम् विलक्षति आरोहन् शत्रो बृहते रसन् प्रोक्ते रूपे प्रणुते रोचमानः चित्रश्चे किन्महिषो वात मायायायायावात लोकानभियद्विभाति अभ्या आन्य च पर्यन्यतस्य देहोरात्राभ्याम् महिष कल्पमानः ोर्यम् <Sess> वयम् च शिक्ष्यन्तम् गातुविदम् भवामहे गाधमानाः पृथिवे प्रमाहिशो नाधमानश्च गातुवदब्दक्षुः फलिविश्वम् बभूव विश्वम् सम्पश्यन् सुविदत्रा विदत्र इदम् स ज्ञातु यदहम् रवे मे पर्यस्य महिमा पृथिवेयम् स मुद्रम् ज्योतेषा विभ्राजन् परिद्यामन्तरिक्षम् सर्वम् सम्पश्यन् सुविदत्रो निचत्र इदम् स मातु यदहम् रवे मे भवाध्यज्ञः स्वविधाजनानाम् प्रदेहेनुमेवायजे मुषासम् यक्वा एव प्रभयामुद्यानाप्रभा ैमेद्यावापृथिवे नयोज्जापिम् कृत्वा भुवानानिमस्ते यस्मिन् क्षयन्त्य प्रतिशश्चेर्याः परसङ्गो अनुविचाकाशीदितस्य देवस्य वृद्धस्यैतदा गोय एमम् विद्वाम्भम् जिनाति उद्वेपयरोहितप्रक्षीणेः ब्रह्मज्यस्य प्रदेमुम् यस्माद्पाता ऋतुथापवन्ते यस्मात्समुद्राधे विक्षरन्ति तस्य देवस्य क्रुद्धस्येतदा गोयेवम् विद्वांसम् ब्राह्मणम् जिनाति उद्रे पयोप्रक्षेणेः ब्रह्म च प्रदेमम् च पाशान् यो मालयति प्राणयति यस्मात्प्राणन्ति भुवानानि दे विश्वापस्य देवस्य क्रुद्धस्यैतदा गोजेवम् विद्वांसम् राह्णम् जिनाति बुद्धे वयरोहितप्रक्षीणेः ब्रह्मज्यस्य प्रदेमुञ्च पाषाणे यः प्राणेन वा पृथिवे तर्पयत्यपानेन समुद्रस्य नैय्य निवर्तितस्य देवस्य क्रुद्धस्यैतदा गोज एवम् विद्वांसम् राह्णम् जुनाति ृद्धेमयरोहितप्रक्षेणेः ब्रह्मज्ञस्य प्रदेवम् चपाशाने यस्मिन् विराट् परमेष्ठे प्रजापादिर्मयेष्वानरः सह पञ्चाश्रितः तः परस्य प्राणम्बा रमस्य तेजातदेतस्य देवस्य वृद्धस्यैतदा गो य एवम् विद्वाम् यरोहितप्रक्षेणेः ब्रह्मज्ञस्य प्रदेमम् च बाशान यस्मिन् षडुर्वे पञ्चदिशाधिश्रिताख्यतश्रावयज्ञस्य त्वयोऽक्षरा योऽदक्रुद्धश्चक्षुषैक्षतस्य देवस्य क्रुद्धस्येतदा गोज एवम् विद्वाम्भम् ब्राह्मणम् उद्धेपयरोहितप्रक्षेणेः ब्रह्मज्यस्य प्रदेमुञ्चपाषान् योऽनातो अन्नपदर्पभो ब्रह्मा नस्पते रोतयः भूतो भविष्यद्भुवनस्य यस्वभिस्तस्य देवस्य क्रुद्धश्चेतदा गो यम् विद्वाम् धम् राम् पुत्रे पैरोहितप्रक्षीणेः ब्रह्मजस्य प्रदेमुन् चपाशान् अहोरात्रेर्विमेकम् त्रिंशदङ्गम् त्रयोदयम् वा देवस्य वृद्धस्यैतदा गो यम् विद्वाम् सम्ब्राह्मणम् जिनात् वृद्धे पैरोहितप्रक्षीणेः कृष्णम् <zkradayana> नियानम् हरायः सुपर्णा अपोऽवसानादिवमुत्पातन्ते तावावृत्तान् सदानादृदस्य तस्य देवस्य क्रुद्धश्चेतदा गोर्यम् विद्वाम्भम् ब्राह्मणम् जुनाते उद्देपयरोहितपक्षेणेः ब्रह्मज्ञस्य प्रदेहम् च पाधान् यत्ते <mí> चन्द्रङ्गस्य परोदनावद्यत्सम्मिदम् पुष्कलम् चित्त यस्मिन् सौर्यापेदा सप्तसाकन्दस्य देवस्य तुधदा गोय एवम् विद्वांसम् ब्राह्मणम् जिनाति कृत्रेवयराहितप्रक्षेदेः ब्रह्मज्ञस्य प्रदेवम् जपाशान रहदे नमनोमस्य पुनःस्थात् कथम् तरम् प्रदे बृह्णाति पश्चात् गोधर्मसानेतमप्रमादम् तस्य देवस्य क्रुद्धस्येतदा गोय एवम् विद्वांसम् ब्राह्मणम् दिनाति उद्देपयरोहितप्रक्षीणेः ब्रह्मद्यस्य प्रदे च वाशान् बृहदन्यतः पक्षासेदम् धरमन्यतः सबले सद्रीजि यद्रोहिदमचादयम् देवास्थस्य देवस्य वृद्धस्येतदा गोलि एवं विद्वाम् सम्ब्राह्मणम् जिनाति वृद्धे पयलोहितप्रक्षेणेः ब्रह्मर्जस्य प्रदेमुण्डपाशान् सवलोडः सायमग्निर्भावति च मित्रो भावति प्रातरुद्यन् सा पिता भूत्वान्तरिक्षेण जातसीन्द्रो भूत्वा ततिमध्यतोऽदिभन्तस्य देवस्य क्रुद्धस्येतदा गोय एवम् विद्वांसम् ब्राह्मणम् जिनाति उद्धे पयरोहितप्रक्षेणेः त्वम् भक्तस्य प्रदेमम् चमाशान् सहस्राण्यम् व्यदावस्य भक्षो हरे हंसस्य स देवान् सर्वानुरस्युपादत्या सम्पश्यन् याति भुवानानि विश्वासस्य देवस्य वृद्धस्येतदा गोय एवम् विद्वांसम् ब्राह्मणम् जुनादि उज्जयपयोहितप्रक्षीणेः ब्रह्मज्यस्य प्रदेमम् जपाशान् अयम् स देवोऽस्वान्तः सहस्रमूलपुरुषा गोत्रेः निलैनम् विश्वम् भुवानम् जानतस्य देवस्य क्रुद्धश्चेतदा गोयेवम् विद्वांसम् ब्राह्मणम् जिनाति बुद्धे पयरोहितप्रक्षेणेः ब्रह्मजस्य प्रदेमम् च पाषान् शुप्रम् वा हन्त्य हरा यो दिवम् द्वन्द्वा आस्तवम् चर्वा सुवर्णे पटले दे विभातितस्य देवस्य क्रुद्धस्येतदा गोजेवम् विद्वांसम् ब्राह्मणम् जुनाति उद्वयवयरोहितप्रक्षेदेः ब्रह्मत्यस्य हृदयम् च पाशान् नित्यान् हरितः सम्वहन् नियेन यज्ञेन बहवो यन्ति प्रजानन्तः यदेकज्योतिर्बहुधा विभाजतस्य देवस्य वृद्धस्येन ददा वोय एवम् विद्वांसम् ब्राह्मणम् जिनाति पयरोहितप्रक्षेणे ब्रह्मजस्य प्रदेहम् च सप्तयम् जन्तुमेकचक्रमेकोऽश्वा वहति सप्त नाम चक्रमचरामदर्वैयप्रेमाविश्वाभुपाभेतस्वः अस्य देवस्य क्रुद्धश्चैतदा गोय एवम् विद्वांसम् दिनादि पुत्रे पयरोहितप्रक्षीणेः ब्रह्मज्ञस्य प्रदेमुम् चपाशान् अष्टथा युक्तो वाहतिवह्ने रुद्रः पिता देवानाम् च नितामासीनाम् ऋतस्य दन्तम् मनसामिमाहानः सर्वादिषः पवते मातविः स्येवस्य वृद्धश्चेतुय एवम् विद्वांसम् ब्राह्मणम् जिनाति उद्वेहे वयरोहितप्रक्षेणेः ब्रह्मव्यस्य प्रदेमम् चपाशान् सन्तम् तम् प्रतिशोदसर्वाः अन्तर्गाः यत्यामृतस्य गर्भेदस्य देवस्य वृद्धस्येतदा दे दे गोलेवम् विद्वांसम् ब्राह्मणम् जिगात् उद्वेयवयरोहितपक्षे नेहब्रह्मज्यस्य प्रदेमम् च पाशान् विमृतस्तिस्रोऽपिशोहतिस्रस्त्रे निरजाम् स दिवो अन्यतिस्रः विद्वाते अग्ने त्रयधा जनित्रम् त्रयधा देवानाञ्जनेमानि विद्वदस्य देवस्य वृद्धस्येतदा गोय एवम् विद्वांसम् ब्राह्मणम् जिनाति उद्धे पयलोहितप्रक्षेदेः ब्रह्मज्यस्य प्रदेमम् चपाशान् व्यौर्णात्पृथिवीम् जायमानासमुद्धमसादन्तरि छेदस्य देवस्य वृद्धश्चेतरागोज एवम् विद्वांसम्राह्मणम् जिनाति उद्वैपयरोहितप्रक्षेणे ब्रह्मज्यस्य प्रदेमम् जपाषान्तोभिक्षेतुमिर्हितो समित्र उदरोचधा दिवे किमभ्या सन्मद पृष्ठे मातरो यद्रोहितमजानयन्तदेवास्तस्य देवस्य वृद्धस्येतदा गोय एवम् निद्वाम् सम् ब्राह्मणम् जिनाति उद्वयलोहितप्रक्षेणेः ब्रह्मज्यस्य प्रदेवम् चपाशान् लात्मदाबालतायस्य विश्वा उपासादय प्रशिष्यस्य देवाः योऽस्ये चेत् विपदायश्चतुपदस्तस्य देवस्य क्रुद्धस्येतदा गो एवम् विद्वांसम् ब्राह्मणम् जिनाति उद्वेपयरोहितप्रक्षेदेः ब्रह्मजस्य प्रदेमुम् चपाशान् एकपाद्विपादो भूयो विचक्रे द्विपात्रिपादमभ्येऽधिपश्चात् चतुष्पाश्चक्रे द्विपादामभिः सारे सम्पश्यन् रतिमोपतिष्ठमानस्तस्य देवस्य रुद्धश्चेतदा गोय एवम् विद्वांसम् ब्राह्मणम् जिनाति बुद्धे वयलोहितप्रक्षेणेः ब्रह्मजस्य प्रदेहम् चपाषाय कृष्णाया श्रुक्रो अर्जुनरात्र्या वत्सो जायत स्वहद्यामधेरोहनिरुहोरुरोहरोहितः स एतसवितास्पर्दिवः स्पृष्ठेव रश्मिर्न भाव्रेदम् महेन्द्रेत्यावेदः सधाता समेढर्तासभाजर्नभवच्छ्रेदम् रश्मिभिर्नभाव्रेतम् महेन्द्रेत्यावेदः सोऽर्यमासबलोढस्स रुद्रः समाहादेवः रश्मिभिर्नभावृतम् महेन्द्रेत्यावेतः सोऽज्ञः स वो सौर्यः स वो ये महायमः रश्मिभिर्नभा भेदम् महेन्द्र एत्यावृतः तम् वत्सा उपातिष्ठन्त्येकशीर्षाणो युतादशा रश्मिभर्नभा भेदम् महेन्द्र एत्यावृतः पश्चात्प्राञ्चातन्वन्त्येतुदे त्रिविभासते रश्मिभिर्नभा भेदम् महेन्द्र एत्यावृतः प्रश्नेषणस्य चेत् रश्मिभिर्नभावृतम् महेन्दयेत्यावृतः तस्येमेन प्रकोशाविष्टम् मानावधाहिता स प्रजाभ्या वधाहिता। यच्च प्राणदियच्च तमिजम् निकतम् सहस्र एष एका ये एकवृदेकायेव एते अस्मिन् देवा ये कृता कीर्तिश्चाम्भश्च नवश्च ब्राह्मणवश्च सञ्चान्नम् चान्नाद्यम् च यदेतम् देवमेः कवृतम् वेद नृयश्चतुर्थो नाप्युच्यते यदेतम् देवमेः कवृतम् वेद न फलिन्दमो नष्ठः सप्तमो ष्टमो न ममोदयशमो नाप्युच्यते य एतम् देवमेः कवृतम् वेद स सर्वस्मै विभश्यति यच्च प्राणति यच्च य एतम् देवमेह कवृतम् वेद तमिदम् निकतम् सहस्र एष एक एकवृदेक एव य एतम् देवमेः कवृतम् वेद सर्वे अस्मिन् देवायेः ककृतो भवन्ति य एतम् देवमेः वेद ब्रह्माजतपश्च कीर्तिश्च षष्ठाम्भश्च नभश्च ब्राह्मणवश्च सन्धान्नम् चान्नाद्यम् च य एतम् देवमेः कवृतम् वेद भूतम् च श्रद्धा च ऋषिश्च स्वर्गश्च स्वधा च य एतम् देवमेकवृतम् वेद स एव मृत्युः सो अमृतम् सो ओद्वा आम् स रक्षाः स हृद्रो वासुवनिर्वसुनेये वा नमो वाके वा षट्कारो वा न संहितः तस्येमे सर्वे हे जातबहुपप्रशिशामासते तस्यामो सर्वानक्षत्रावशे चन्द्रमासासः स वा अन्धाजायत तस्मादहरजायत सवे रात्र्या अजायत तस्माद्ध्रात्रेरजायत स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत स वै वायोराजायत तस्माद्वायुराजायत स वै दिवाजायत तस्माद्ध्योरध्याजायत सर्वेदिग्भ्योऽजायत तस्माद्दिशोऽजायन्त सर्वै भौमेरजायत तस्माद्भौमेरजायत सर्वा अग्नेराजायत तस्मादग्निराजायत सर्वा अग्भ्योऽजायत तस्मादापोऽजायन्त सर्वाभ्योऽजायत तस्मादु चजायन्त स वै यज्ञादाजायत तस्मात् यज्ञाजायत स यज्ञस्तस्य यज्ञस्य यज्ञस्य शिलः सस्तनयति सविद्यातते स भो अस्मा नमस्यते पापाय वा भद्राय वा पुरोषायासोराय वा यद्वा कृणाश्चोच धेर्यद्वा वर्षा सु भद्रया यद्वा वांसे मघवन्महिमोपो देवन्वश्यतन् उपो देवद्भेवान्यनिवासिन्यर्बुदम् भूयामिन्द्रानमुदाद्भूयानिन्द्रासि मृत्युभ्याः भूयानदाश्चार्षच्चाः पतिस्त्वमिन्दासि विभो प्रभोरितोपास्महे वयम् नमस्ते अस्तु अन्नाद्येन <Sit> एष नमस्ते अस्तु पश्यत पश्याम पश्यत अन्नाद्येन यषसा तेजसा ब्राह्मणवच्चसेन पुरप्रथस्रुभोर्भुवै दित्वोपा स्महे वयम् नमस्ते अस्तु पश्यत पश्याम पश्यत अन्नाद्येन यष सा तेजसा ब्राह्मणवच्चसेन प्रथोपराद्यसो लोकय चित्तोपा स्महे वयम् नमस्ते अस्तु पश्यत पश्यामापश्यत अन्नाद्येनायश सा तेज सा ब्राह्मणवर्जासेन भवद्वसुरिदद्ध सुयर्दुरायद्धसुरि चित्तोपा स्महे वयम् नमस्तेऽस्तु पश्यत पश्यामापश्यत अमन्नाद्ये दश सा ते च सा